मद्भागवद् महापुराणं पञ्चं स्कन्धं सप्तदशोऽध्यायः यत्र ह वैदेवपतयः स्वैश्वैर्गणं नायकैर्विहितं महार्हणाः सर्वतो कुसुमं तपकं फलकिसलय श्रियान्मानं विपुम् विटपलतां पलता विटपीभिरुपशुम्भमानरुचिर्काननाश्रमायतनवर्षगिरिन्द्रोडिसूचता च्यामल् जलाशयेषोऽविकच विभिधनं नवं वनरोहामोदमुदितराजहंस जलकुक्कुरकारण्डवसारसचक्रवाकादिभिर्न् निर्मधुकरनिकराकृतिभिरूपकूजितेषु जलक्रीडादिविभिचित्रविनोदैः सुललतशिरसुन्दरीणां कामकलिलविलासहासलीलावलोकाकृष्टमनो दृष्टय स्वैरं विहरन्ते नवष्वपि वर्षेषु भगवान्नारायणो महापुरुषपुरुषाणां पुर्शा पुर्शा तदनुग्रहायात्मं तद्वहेनात्मनाद्यापि सन्निधीयते लीलावृते तु भगवान् भव एक एव पुमान्याह्यन्य्रापरो निर्विशति भवान्याः सापनिमित्तौ यत्प्रवेक्ष्यन्त्यत श्रीभावसद्पश्चाद्वक्षापि पवानीनाथै श्रीगणार्म्बुदसहस्रैरम्बरुध्यमारो भगवस् भगवश्चतुर्मृतै महापुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिमात्मरसङ्कर्षणसंज्ञाम् आत्मसमाधिरूपेण सन्निधाब्जैतदभिगृहन् भव उपधावति श्रीभगवानुवाच ॐ नमो भगवते महापुरुषाय सर्वगुणन् सङ्ख्यानायानन्तान्तायाव्यक्ताय नम इति भजे भजन्यारणपादपङ्कजम् भगस्य कृष्णस्य परम्परायणम् भक्ते स्वरम्भावितभूतभावनम् भवापहं त्वा भवभावमीश्वरम् न यस्य मायागुणचित्तृद्यवे एषे यथालोजितमन्युरङ्घसां कस्तं न मन्येत जिगीसुरात्मना असदृशो य प्रतिभाति मायाक्षिबेव मां नध्वासवं ताम्रलोचनः न नागवध्वोर्हणैशिरेशिया यत्पादयो स्पर्शन् धर्सितेन्द्रियाः यमाहुरस्यासितिं जन्मसंशयं त्रिभिर्विहीनं यमनन्तरीं न वेदसिद्धार्थमिव क्वचित् स्थितं भूमण्डलं मुरुधसहस्रधामसो यस्याज आसीद गुणविग्रहो महान् विज्ञानशिष्णयो भगवान् ज किल यत्सम्भवोऽहं त्रिवितास्वतेजसा वैकारिकं तामसमेन्द्रियं सृजे यस्य वशे महात्मना सिता शकुन्तायुसुदृयन्त्रिताः न हानं वै कृतां मसेन्द्रियाः सुजाम सर्वे यदनुग्रहादिदं यन्निर्मितां करिहपि कर्मवं पर्वणिं मायां जनोऽयं गुणसर्गमोहितः न वेदनिस्तारणयोगमञ्जसा तस्मै नमस्ते विलियो दयात्मने इति श्रीमद्भागुते महापुराणे प्रंशां चैतायां पञ्चमस्कन्दे सप्तदशोऽध्यायः